ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 45 फैव् भार्गवचरितं वसिष्ठ उवाच तथ कदाचिद्विपिने चतुरङ्गबलान्वितः मृगया मघमच्छुरशूरसेनादिभिः सह ते प्रविश्य महारण्यं हत्वा बहुविधान् मृगान् जग्मुस्तृशार्था मध्याह्ने सरिदं नर्मदामनु तत्र स्नात्वा च पीत्वा च वारिनद्य गदाश्रमाः गच्छन्तो ददृशुर्मार्गो जमदग्नेरधाश्रमम् दृष्ट्वा श्रमपदं रम्यं मुनीना गच्छदपदि कस्येदमिति पप्रचुर्भाविकर्मप्रचोदिताः ते प्रोचुरधिशान्तात्मा जमदग्नेर्महातपाः स्त्यस्मिन् सुतो यस्य रामशस्त्रभृतांवरः तच्छ्रुत्वाभिरभूतेषां रामनामानुकीर्तनाद क्रोधं प्रसंज्ञा नृशंस्यं पूर्ववैरमनुस्मरन् अथ ते प्रोचुरन्योन्यम् पिदृह दुर्विदु वैर निर्यातन किंतु क्या दिशाधुना खड़गहस्तास्थे संप्रवेश तदाश्रम प्रजाग्निरे प्रयाषु मुनिवीरषुत संहत्वस्य शिरो हृत्वा निषादा इव निर्दयाः प्रययुस्ते दुरात्मानः सबलास्वपुरीं प्रदी पुत्रास्तस्य महात्मानौ दृष्ट्वा स्वपितरं हदं परिवार्य महाराज रुरुदुशोग कर्षिताः भर्तारं निषदम् भौमौ पदिदं वीक्ष्य रेणुका पपादमूर्च्छिदा सद्यो लदेवाशनिताडिता शाश्वचेदसि सम्मूच्य शोकपावकदीपिताः दूर प्रनष्ट संज्ञेव सद्यः प्राणैर्व्ययुज्यत अनालपन्त्यां तस्यां तु संज्ञां यादाहिते पुनः न्यपतन्मूर्च्छिदा भूमौ निमग्ना शोकसागरे ततस्तपो तत्तपो वनवासिनः समेत्याश्वासयामासुस्तुल्यदुःखासु तान्मुने सां त्वमाना मुनिगणैर्जामदग्न्या यथा चक्रुरेव तदूर्ध्वं वै यत्कर्तव्यमनन्तरं पित्रोर्मरणदुःखेन पीड्यमाना दिवानिशं ततःकाले गदे रामः समानां द्वादशावधौ निवृत्तस्तपस्सख्या सहागादाश्रमं पिदुः श्री ब्रह्मा महापुराणे वायुप्रोक् मध्यम भगे सगरोपाख्याचरि पंच चुरीशतम ओं